मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं ट्वेल्व् ब्रह्मविष्णुविवादो नाम द्वादशोऽध्यायः श्रीगणेशाय नमः शौनक उवाच सूदसूदमहाप्राज्ञ परमानन्ददायक कथाममृतरूपां च कथयस्वमहाद्युते वयं प्रसन्नतां याधाकृतकृत्या यथा तथा सुकथामृतपानेन स्वानन्देन परिप्लुताः कथयस्वकथां कधा दिव्यां पञ्चदेवैश्च किं विस्तारेण यथा यनमुक्दा भवामच भवाम च श्रुत्वा तेषां मुनीनां च वचनम् भक्तिभाविदम् हृष्टसूदः पुनः प्राह कथाम् सूत उवाच एवमेव स दक्षेण पृष्ठो योगीश्वरो महान् महान्मुद्गलस्तं यथोवाच तथा महामुने मुद्गल उवाच शृणुदक्षमहाभागपार्वत्या शिवसन्निधौ यत्पृष्टं यच्छ्रुतं सर्वं कथयामि सविस्तरं पार्वत्युवाच भगवन् देवदेवेष्य तारिताहं त्वया प्रभो सुकर्धामृदपानेन कृद कृत्यास्मि साम्प्रतं प्राभवन् वरदानदः किं चकृस्ते महात्मान कथयस्व विधानदः युक्तम चेच्चरीत कथय स्वे अथवा गाणपतियाना चंम ब्रह्मदाकम व्यर्थ संलपनेनाशकार्यो न शोभन दन्यास्ते साधवो लोका गणरा भक्ति भाईता मुद्गल उवाच प्रियया वचनं श्रुत्वादिहृष्टः स महेश्वरः उवाच स्मयमानश्चालिङ्ग्य देवीं शिव उवाच धन्यासिपार्वदित्वं च सार्थकं जन्मते परं भक्त्याधृतो गणेशोऽयम् हृदितेन वरानने गणेशभक्तियुक्ता युक्दाये नरास्ते ब्रह्मरूपिणः दर्शनान्मुक्तिदातारः सर्वेभ्यो नात्र संशयः गणेशं यः परित्यज्य सिद्धिमिच्छति स मूढात्मादु विज्ञेयो नारकी नात्र संशयः अन्यदेवस्य ये भक्ता गणेशं नार्चयन्ति चेत् तेषां न भविता सिद्धिर्नरकेषु पतन्ति ते सुधां सन्त्यज्य रूक्षान्नं शवदुर्मद गणेशनम तथा त्यक् सेक जनको माता नात्रसंशयः, संशय ज्येष्ठराजस्ते ना पूज्यको भ त्यक्त्वा गणेशम् मूढात्मा देवादीनपि पूजयेत् गणेशोल्लङ्कनात्तं वै क्षिपामो नरके वयं गणेशनिन्दको जन्तुरस्माकं भक्तिकारकः नारकी भविदा सद्योऽस्मद्गुरुद्वेषकारकः अतस्त्वम् धन्यरूपासि सर्वेषां मूलबीचकम् भजसि त्वम् गणेशानम् भक्ति भावसमन्विता सत्यं देवित्वया प्रोक्तं गणेशानां प्रकीर्तनं गणेशस्य च वा तेन जन्म कृतार्थकम् गणेशम् प्रार्थयामीति शृणुचिन्तामणि प्रभो चित्त चित्तनिवासकारिन्वै गजाननमहोदर गाणपत्या महाभागास्तेषां सङ्गः सदास्तु मे तेषाम् मध्ये तदा वासम् देहित्वं द्विरदानना अग्रेमे गणपत्यास्ते पृष्ठे वामे च दक्षिणे सर्वत्र सहतैर्वासो गणपत्याैर्भवत्विधि येषां मुकारविन्देषु गणेशचरिदम्बभौ भव बन्धहरं पूर्णमिह मुत्र सुखप्रदं चरितं गणपत्यानां गाना गणराट्सेवनात्मकम् अहर्निशं प्रभवदि चेष्ठदं धुण्ढिभक्तिदं तारितोऽहं त्वया देवि कथां पृच्छसि मां पुनः गणेशभक्तिपूतां वा भक्तानां तस्य भावतः प्रष्टु श्रोतुश्च वक्तुर्या ब्रह्मभूयपदप्रदा इह तां तु वदामि त्वां गाणेशीं सुखदायिनी यदा यथा गणपतिस्वयं वरधकथयामास ईश्वराज्ञानभाविताः पञ्चलोकासमुद्भूता वरदानप्रभावदः निराधारा अखण्डाश्चावेषु विभागशः कैलासे शङ्करश्चैव वैकुण्ठे विष्णुरेव सौरलोके रविशक्रिलोके चैव जगन्मयि सत्यलोके तथा ब्रह्मा वसति स्म मुदान्विदः ऐश्वर्यभोगभोक्तारः परस्परहिते रताः सत्यसङ्कल्पवन्तस्त ईश्वरा ब्रह्ममानिनः बहुकालेन तेषां वै मत्सरःसमजायत अहं श्रेष्ठतमश्चैव सर्वेषां प्रभुरीश्वरः हृदये मन्यमानास्ते विवादं चक्रुरञ्जसा आपश्च तत्र संसृष्टा विष्णुना स्वशरीरतः तासु संसुप्तवान् देवो बहुकालं यथा सुखं जले शैवालवल्ली च समुत्पन्ना क्रमेण बहुकालेन तन्मध्ये पृथ्वी जादास्वभावदः लीलार्थे विष्णुना सृष्टं नाभ्यां कमलमुज्ज्वलं सदयोजनविस्तारं कर्णिकापत्रशोभितं सुवासबहुलं वीक्ष्य तेन मे जनार्दनः एककाले जगाम स्म तत्र ब्रह्मा पितामहः कमलं तेन सन्दृष्टं विस्मिदो हृदये भृशं केन सृष्टमिदं दिव्यं पद्मपरमशोभनं तत्र नारायणं दृष्ट्वा प्रसुप्तं स प्रभु प्रभुमुद्धापयामास्रह्मा तं स्नेहभावतः ब्रह्मणो वचनेनैव समुत्थौ जनार्दनः ब्रह्माणम् आनयामास स्वागतं भो पितामह तत्र ब्रह्मामहाविष्णुं प्रत्युवाच समत्सरः किम् मोहार्थं त्वया स्पृष्ठं पद्मं परमशोभनम् अहं ब्रह्मा जगत्स्रष्टा सर्वादिस्सर्वभावनः मया प्रक्रियते सृष्टिपश्चात्त्वं पालयिष्यसि सृजामि यदि नो तां चेत् किं पासि त्वं जनार्दन मदधीनश्च सर्वेषां भावस्तेनाहमीश्वरः ब्रह्मणो वचनं श्रुत्वा विस्मितः जनार्दनः उवाच मधुरं वाक्यं ब्रह्माणं सान्द्वयन्निव विष्णुरुवाच सृष्टवान् कमलं नाहं मोहितुं त्वां पिदामह लीलार्थं पद्ममेवेदं पश्य त्वं नात्र संशयः समत्सरमिदं वाक्यं त्वयोक्तं यत्पिदामः पिधामः अहं त्वां पालयामिदं तेन स्रष्टा भवान् किल नान्योपादास्ति मत्तस्ते सर्वेषां पादृभावदः अहं स्थितो महाविष्णुर्मत्समो नैव विद्यते तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते ब्रह्मविष्णु विवादो नाम द्वादशोऽध्यायः